नूरावदशकम् केशातिपादान्तवर्णनै अग्रे पश्यामि तेजो निबिडतरकला यावलीलोपनीयं पीयोषाप्लावितोऽहम् तदनो तदुदरे दिव्य कैशोरवेषम् तारुण्यारम्बरम्यम् परमसुकरसा स्वातरोमाञ्चिताङ्गै आवीतम् नारदाघ्रैर् विलसदुपनिषत् सुन्दरीमण्डलैश्च नीलाभं कुञ्चिताग्रम् घनममलतरम् संयतम् चारुपङ्क्या रत्नोतम् साबिरामं, वलयितमुतय चन्द्रकैपिञ्जचालै मन्दारश्रृङ्निवीतम् तव पृदुगबरी बारमालोकयेहम् स्निग्धश्वेदोर्ध्वपुण्ड्राम् अपि च सुललिताम् बालबालेन्तु वीथी हृद्यम् पूर्णानुकम् सञ्चलब्रूविलासै नेत्रयुग्मं नेत्रयुग्मम् विबोधे सान्द्रश्चायम् विशालारुणकमलदला कारमामुद्दतारम् कारुण्यालोकलीला शिशिरितभुवनम् क्षिप्यतामय्यनाथे उद्दुङ्गोल्लासिनासम् हरिमणिमुकुर प्रोल्लसद् गण्डबाली व्योल्लोलत्कर्णपासाञ्चितमकरमणि कुण्डलद्वन्द्वदीप्रम् उन्मीलद्दन्तपङ्क्ति स्फुरतरुणतरश्चायबिम्बादरान्त प्रीतिप्रश्यन्दिमन्त स्मितमतुरतरम् वक्त्रमुद्भासताम् हे भागो द्वन्द्वेन रत्नो ज्वलवलयवृता शोणपाणिप्रवालेन उपाता वेणुनाले प्रसृदनगमयोगाङ्गुली सङ्गचारा कृत्वा वक्त्रारविन्दे सुमधुरविहस रागमुद्भाव्यमानैः शब्दब्रह्मादृतैस्त्वम् शिशिरितभुवने सिञ्च मे कर्णवीतीम् उत्सर्पत्कौस्तुभश्रीददिवि अरुणितम् तरलतरसम। कण्डदेशम् वक्षश्रीवत्सरम् यम् किसलयिनीम् वन्यमालाम् विलोलत् लोलम्बाम् लम्बमाना उरसितवत भावये रत्नमालाम् अङ्गे पञ्चाङ्गकारै अतिशयविगसत् सौरभाकृष्टलोकम् लीनानेकत्रिलोकी विततिमपि कृशाम् बिप्रतम् मैद्यवल्लीम् चक्राश्मत्न्यस्ततब्दोज्वल कनकनिबम् पीतशेनम् ददानम् द्यायामो दीप्तरश्मि स्फुटमणिरचना किङ्गिणी गनमशृणरुचौ चित्तचोरौ रमाया विश्वक्षोपम् विशङ्क्य ध्रुवमणि च मुभौ पीतशेलावृदाङ्गौ आनम्राणाम् पुरस्तान् न्यसनधृत समस्तार्तपालीसमुद्गत् चायम् जानुद्वयम् च चा, क्रमब्रतुल मनोज्ञे च जङ्गे निषेभे मञ्जीरम् मञ्जुनादैरिव पदभजनम् श्रेय इत्यालपन्तम् पादाग्रम् भ्रान्तिमज्ज प्रणतजनमनो मन्दरोद्धारकूर्मम् उत्तुङ्गाताम्रराजन् नगर किमकर ज्योत्स्नया चाश्रिताना सन्ताबध्वान्तहन्त्री ततिमनुकलये मङ्गलामङ्गुलीना योगीन्द्राणाम् त्वतङ्गेषु अधिकसुमधुरम् मुक्तिबाजाम् निवासो भक्तानाम् कामवर्ष द्युतरुकिसलयम् नातते पादमूलम् नित्यम् चित्तस्थितम् मे पवनपुरपते नित्यम् चित्तस्थितम् मे पवनपुरपते नित्यम् चित्तस्थितम् मे पवनपुरपते कृष्णाकारुण्यसिन्धो हृत्वानि शेषतापान् प्रदिशतो अज्ञात्वा ते महत्त्वम् यतिहनिगदितम् विश्वनाथक्षमेता स्तोत्रम् चैतत्सकस्रोत्तरम् अधिगतरम् त्वत्प्रसादाय भूयात् त्वेधा नारायणीयम् श्रुतिषु च जनुषा त्वेधा नारायणीयम् श्रुतिषु च जनुषा ेदानारायणीयम् श्रुदिषु च जनुषा स्तोत्यथा वर्णनेन स्वीतम् लीलावदारैर् इदमिक कुरुताम् आयुरारोग्यसौख्यम् श्रीकृष्णाशरणम् श्रीगुरुवायुरप्पाशरणम् नित्यश्रीनित्यमङ्गलम् श्रीहरये नमः सर्वत्र गोपिका जीवनस्मरणम् गोविन्दा. गोविन्द